सप्तमकाण्डः प्रारम्भः ओ प्रजननं ज्योतिरग्निर्देवतानां ज्योतिर्विराच्छन्दसां ज्योतिर्विराट् तिष्ठते विराजमभिसम्पद्यते तस्माणसवनं वहतो यथा प्राणश्च प्राणश्च द्वौ माद्यथा चक्षुश्च श्रोत्रं च द्वौ तृतीयधवनै यथा स्थूर्यङ्कामङ्कामयते सर्वज्ञो मेन वै प्रजापति प्रजा असजनाज्ञष्टोमेनैव प्रजा परिजगृह्णात् तासां परिगृहीता नामश्वत्यप्रवचनस्यानुगाचरे तत्त तद्गर्दभेऽन्यमा तस्मात् गर्दीतासो आहुर्वणवान्यमाद्वेतासो आहुर् रोण्डिस्मादोषो नस्मादश्व प्रजायितस्मावगर्तः सर्ववेदसे वा सहस्रे वा विद्वारज्ञेष्टेष्ठत् प्रजापतिर्वाव ्राह्मणो मनुष्याणामजः पशूनान्तोरतो बाहुभ्याम् इन्द्रो देवतान्वदिर्जन दृष्ट्छन्दो बृहत्सा बलागन्यो मनुष्याणां मरुष्पशोनान् तस्मात् देवे जन्तरसप्तरमेधं विश्वे देव देवता अन्वसृज्यन्त जगति छन्द वैरूपकं साम वैश्वमनुष्याणा कामप्रसूनान्तस्मात्ताद्यान्नधाना सृज्यन्तरस्पाद्धो यागुं सोऽभ्रभोयष्ठाहि देवता अन्वसृज्यन्तरे कविकं संयरमित तमरुच्छन्दोन्वसृज वैराजकं सामसूत्र मनुष्याणामश्वः पशूनान्तस्मात्तौ भूत सङ्ग्रामिणावश्वश्च शोद्रश्च देवतान्वसृज तस्मात् पादा उपदेवनः पत्तौ सृज्येताम् प्राणावेत्र पञ्चदश प्रजापतिः सप्त रशस्त्रे लोकारेखविकंशने तस्मिन् वातिष्ठिता एतस्मिन् परितिष्ठते वनेवैकायत्रेकचन्द्रभते स्तोमाय ज्योति दशतेरि त्रिभुताः ब्रह्मवत्यथेन पञ्चदशाय ज्योदशेरि पञ्चरथेन उचता सप्तदशाल ज्योदेव सप्तरथेन प्राजापतेन न्तो लोकास्तावन्ति ज्योतेकिश्चेतावदेवस्तोमानेतावतः कामानेतावतो लोकानेतावन्ति ज्योतेकिष्टोन्ते ब्रह्मवादिना वदन्ति सत्पैरे नेष्टोमेन इदमानो सर्वस्तोमेन यश्चत्र पदमम् तर्यन्ति प्राणायस्तस्याञ्जर्यन्ति प्राणेप्यैर्येन इदमानो यस्य पञ्चदशमन् तर्यन्ति वेयन्तस्य न्तर्गन्ति वैद्ये मेऽप्यसरति खलु वैरिग्येन इजमानो एकदेयस्य दत्तरसमन्तर्गन्तिप्रजान्तस्यान्तर्गन्ति प्रजाया मेऽप्यसरति खलु वैरिणमानो एकदेयस्यैकविघुंसमन्तर्गन्तिप्रतिष्ठान्तस्यान्तर्गन्तिप्रतिष्ठायाम् मे प्रसरति खलु वैरिग्येन यजमानो यजधेयस्यत्र नवमन्तर्यन्ततो गच्छतस्य च विराजमन्तर्यन्तेऽप्यक्षत्रियाञ्च विराजयति खलु यजमानो यजते यस्य त्रिगन् समन्तर्गन्ति देवतास्तस्यान्तर्गन्ति देवता सुमेऽप्यतमानो यजते यो वै स्तोमा रामम् परमला निगच्छन्तम् वैरपरमलामेव गच्छति त्रिवद्वै स्तोमा राम नमस्तेवत्परमोदेवम् वैरपरमलामेव गच्छति यतो वै सक्रमासते सुवर्गं लोकमायन्तेशागं हविष्मागश्च हविष्कृश्चा हीयेतान् तावकामयेतागं सुवर्गम् लोकमिया वेति तावेतन् विहात्रमपश्यतान्तमाहरतान्तेना यजेतां ततो वैतौ सुवर्गं लोकमयिताञ्जगेवं विद्वान् विहात्रेण यजते सुवर्गमेव लोकमेति तावैतां पूर्वेणान् गच्छतामुत्तरेणाभिप्लवपोर्वमः भवति गतिरुत्तरं जोदिष्टोमोऽग्निष्टो मोर्ममः मौ भवति सर्वस्तो मोदिरात्र उत्तरम् सर्वस्यात्यै सर्वस्यावरुद्धे गायत्रम् पौर्वह साम भवतेजो वै गायत्वे गायत्रै ब्रह्मवर्तसम् तेजगेव ब्रह्मवर्तसमात् मन्थत्येत्रेष्टभमुत्तरभोजो ते वै वीर्यम् दुष्टगोज एव वीर्यमात् मन्धत्यैरथन्तरम् पूर्वयः सामु भवतीयं वैदन्धरमस्यामेव प्रियतिष्ठति बृहदुत्तरे सौ वैभ्यमुष्यामेव प्रियतिष्ठा हुक्व जगते च दृष्टुच्चेति वैखामिन जगत्तेनैति सोणस्युत्तरतेन दृष्टुभो साहुर्यमासे स्यातामन्यतरस्यान्भवीर्यमनुपद्यते मा वास्यायाम् पूर्वमहद्भवत्युत्तरस्मिन्नुत्तरम् न दैवार्धमासयो भवतो नानावीर्ये भवतो हविष्कन्निधनम् पौर्वमहद्भवदिहविष्कन्निधनमुत्तरम् प्रतिक्षित्यै आपो वा इदमग्रेसरिणमाधेत्तस्मिन् प्रजापदर्वायुर्भो त्वा च रत्स इमामपश्यक्ताम् वराहो भो त्वा हरत्ताम् विश्वकर्मा भो त्वाव्य प्रथ सा पृथव्यः तत्पृथव्ये पृथ्वित्तम् तस्यामश्रां यत् प्रजापतिः स देवारसदो स्तपसा वृक्षे वन्तपसि प्रजननमिच्छद्वमियतनं प्रायच्छतेनायतनेन श्रे ऋतेनाश्राम्यन्ते संवत्सरगे शाङ्गां रजन्ततां वसुद्भ्यो रुद्रेभ्याहरित्येभ्यः प्रायच्छन् नैतागो रक्षद्भ्यमिलितां वसवो रुद्रा रीत्या रक्षन्तभ्यो रुद्रेभ्यहरित्येभ्यः प्राजाय दत्री त्रयस्त्रिमहस्रेण नवजामे नोजयाजयत्तय मल्लोकवजगन्तच्छातुरस्त्वेन रुद्रापया जयतेऽन्तरिक्षमजगन्तच्छातुरस्सोणानित्यानया जयत्ते मल्लोकवजयन्तच्छातुरस्तदन्तरिक्षं गजरस्मा रुद्राघातुकाराय तनाहितस्मादाहु शिथिलम्बैवस्तिरात्रस्य विहितरात्रस्यान् सोक्त्राणि सगुंसलिषोडशिलघं शकं सत्यह्नो सत्याशिथिलम् भावास्मा त्रि तस्याः प्रथमा हस्त्याोसातिरात्तरेषाम् लोकानाम् विधृत्यै त्रीणि त्रीणि शतान्यो ते राहमविरविच्छिन्नानि ददा तेषाम् च्छिन्द्याने तस्यामिन्द्रश्च विष्णुश्च व्यायक्षेता स इन्द्रमन्यतां विष्णुसहस्रं वक्ष्यस्यामकल्पेतान् विभागेन्द्रस्तरे विष्णस्तद्वारेभाभ्यणो चदपार्यसुरसिताम्बारेतामच्छावागणेव होतारम्भाभ्यतिरिच्यते यतिरिच्यते होताराष्टाहुनेत्रे ते जयततिरिक्तापागे काष्टस्यातिरिक्तमुन्नेतव्यजामथाहुस्सर्वेभ्यस्तरस्येभ्यो तेजे त्यथा हृदागत्या तावशङ्करे त्यसाहृ ब्रह्मणेधा मेधेत तेजयद्विभागम् ब्रह्मणेतबीजमीष ऐन्द्रो मे ब्रह्मा वेष्टमो व्यथे इत्यथा हुर्या कल्याणी बहुरूपा सा देगेत्यथा हुर्याद्योपा भगतगेणी सा देगेति सहस्रस्य वैगृहेत्येतद्वारेतत्सहस्रस्याजनकम् सहस्रकृस्तोत्रीया सहस्रम् दक्षिणा सहस्रसम्मितस्वर्गो लकस्वर्गस्य लोकस्याभिजित्यै सोमो वै सहस्रमविन्दन्तमिन्द्रोऽविन्दत्तौ यमोऽन्यागच्छत्रावप्रभेदस्तु मेत्रा वीर्त्यस्तु हि अब्रूतागुम् सगम एकस्याम् वीर्यम् पर्यवश्यति यम् वाश्च सहस्रश्च वीर्यम् व्यभर्त्येति तावब्रवेदियम् ममास्त्वेतद्यवयोदति तावब्रोतागुम् सर्वे वा एतदेतस्याः वीर्यम् परिपश्यामोऽगुम् समाहरामः इति तस्यामगुम् समाहरन्त नाम सुप्रादेशगरन् सोमा यो सहोदेत्कस्माद् द्रोहिण्यापिङ्गलये अहायञ्जा सोमंक्रेणीशाज एवम् विद्वान् द्रोहिण्यापिङ्गलये अहायञ्जा सोमं क्रेणादि त्रयस्त्रिंशदा चैवाश्चत्रभिश्चते भवति सुक्रीतेन यज एता मुक्शुप्रावैयन् निन्द्रा सा रोहिणी लक्ष्मणापष्ठौ हि वार्तघे रूपम् कृत्वा त्रयस्त्रिंशदा च त्रिभिश्चते सहोदेत्कस्मात् द्रोहिणी ल्लक्ष्मणां पष्ठोह्यं भात्रघेन्दध्याद्रयैवं विद्वान् द्रोहिणेल्लक्ष्मणां पष्ठोहीं भात्राघेन्द त्रयत्रयं चैवाश्च जरदाय सादप्तापवदतामत्सुप्रापेशलयमायोजे हे जरते मोर्खादज्जघन्यारोपञ्चत्वात्रयत्रियं सदायत्रे चे सहोदे तस्माज्जरते मूर्खा चघन्यामनुस्तरणे कुरुवेदेव एवम् विद्राञ्जली मूर्खान्तज्जघन्यामुनस्तरणीम् कुरुते त्रयस्त्रिकिंशच्चैवास्त्यमुष्मिन्लोके भवति वागे वदहस्तदवेतस्मात् परोदेशः साहि वरः सहस्रमस्य च दत्ता भवति तस्मात् वरोनप्रतिगृह्य साहि वरः सहस्रमस्य प्रतिगृहीतम् भवति यम् वरैति ब्रोजाधान्याम्ब्रोजासहस्रम प्रतिगृहीतम् भवत्युभयदगेरे राहुरण्यकरेण स्यात् सहस्रम् वरस्तादय वरः कल्याणे समर्था स्यात् सायैव समुद्धेतामुत्तरेणा ज्ञेभ्यम् घ्रकलशं वक्ष्यरुधारापयः सत्यात्पा विशन् चिन्दव समुद्रमुन्धवः सामा सहस्रहाभज प्रजगा वजुभिः सहभाविशदा्रैलिप्रजगेवगति प्रजां वेदलगा सहाग्ने परेत्य पुनस्ताः तिष्ठन्धुजापराजगे श्च विधान्त्रेधा सहस्रं विगतैर येधा मे चेधा विभक्तं वैत्रितात्रे सहस्रगुङ्काहस्री वे मीनाङ्करो सहस्रश्चैवीनांकरोजरूपाणि जहोजरूपै्यगडितश्चाभोत्थाय कर्मस्वतिप्रिये प्रेयसि महि विश्व नामानिस्तुतम् मादेवेषु ब्रोताजिरिदेवेऽभ्येवे न मावेदयक्तन् वेनन् देवा बुध्यन्ते सहस्ररम्या वेदमानस्तुवर्गम् लोकमय हृदैरगौ सुवर्गम् लोकाङ्गमयतिलाभामाधुवर्गम् लोकाङ्गमगेत्याधुवर्गमेवेण लोकाङ्गमगतिलाभाज्योजपन्तं लोकङ्गभगेत्या ज्योतिष्पन्तमेवेण लोकङ्गमयतिधामा सर्वाङ्गुण्या लोकाङ्गमगेत्या सर्वादेवेण पुण्याः लोकाङ्गमयति भावाः प्रतिष्ठाङ्गमय प्रजना वनभिस्तः पुनर्माविषधा प्रजैवेणम् पशुभेदय्याम् प्रतिष्ठापयति प्रजाभान् पशुवान् नगिमान् भवतिग एवम् वेददा भग्नी ब्रह्मणे वा होत्रेवोद्गात्रे वा दत्ता भवति सहस्रमस्य प्रतिघृष्टम् भवति गस्ता भविद्वान् देकादिनसहस्रमेकान् वा भूतां प्रतिग्रन्था विरसहस्रमेका मा भूता विष मा सहस्रमित्येकामेवीनां भूतां प्रतिग्रन्थादिनसहस्रय्यकेवं वेदस्यो नासदासुदेवास्यो नामा विषसुषदा वा विशदसेवा वा विजेत्या हस्योदेवेन गौ सुषदासुसेवा भूता विशतरेण सहस्रतमेकम् सहस्रः प्रादेमुत्सृजेत्सहस्रकम् सहस्रतम् व्यम् विहात्सहस्रमप्रज्ञात्रकम् सुवर्गम् लोकम् न प्रजानीयत् प्रदेमुत्सृजलिताकम् सहस्रमुनपरियावर्तते सा प्रजानते सुवर्गम् लोकमेते यजमानमप्युत्सृजित् क्षिप्रेण प्रजाय समुत्तमानीयते प्रथमादेवान् गच्छति अत्रितादौर्वाग प्रजामाय सजामामञ्जतमासगयतञ्चतो रात्रम् पश्यत्तमाहरक्तेन यजदो वीरस्य चत्वारो वीराजायन्तसोहो दासोद्गादास्वध्वर्यस्तुतभय योगे एवं विद्वादिष्टतो रात्रेण यजदास्य चत्वारो वीराजायन्ते सोदासोद्गादास्त्वध्वर्यस्तुतभय योगे चतुर्भिघुंशाः पव ब्रह्मवर्तदं तद्यबुद्धं दस्तो भा श्रे साधारीर्याणि लोपानमन्त्रेन्द्रियं ब्रह्मवर्चलमन्नाद्यतागश्चतुरश्चनवश्चैरेव प्रथमे नामानन्देन्द्रियं द्वितीये चतुर्थैरेवं विद्वागश्चतुरश्चतुष्टो भान् सोमानाहरैर प्रथमेणावरुन्धयन्त्रियम् तीरेण ब्रह्मवत्यसन्तीरेणात्यञ्चतुर्थे निगामेव यजमालरुद्धोति शमदग्निः पुष्टिकामश्च दोरात्रेणायजस एतान् पोषागम् नपुष्यत्तस्मात्पजतो जापदग्नियो न सञ्जाता एतादेव पोषान्पुष्यते एवम् विद्वागश्च दोरात्रेण यजते पुरोडाशून्यमपसतो भवन्त्यपशभो वै पुरोडाशः पशुनैवावरुन्धेन् वै पुरोडाशोऽन्नमेवावरुन्धेन् दानः पशुवान् भवति संवत्सरो वा इदमेकः सोगावै सतोन् सृदगेत्रेणम् पञ्चरात्रमपश्यत्तमाहतेन इदतो वै सरतो नृजतये विद्वान् पञ्चरात्रेण इजते प्रैवजागते तरदवसृष्टान् व्यावर्तन्तरेणम् पञ्चरात्रमपश्यन्तमाहरन्तेना इजन्तरतो वै देव्यावर्तन्तय एवम् विद्वान् पञ्चरात्रेण इजते विपात्मनाभ्यादुन्देनावर्तते सार्व ैशौयो कामयदपशुमान् श्यामि त्रयेतम् पञ्चरात्रमाहरत्यना यजरत सोमेधसहस्रम् अशून् प्राप्नोद्य एवम् विद्वान् पञ्चरात्रेण यजदे प्रसहस्रम् अशूनाप्नोदिम वरप्रावाहनय कामयभाज प्रवदिता श्यामि द्विषयेतं त्याहुरणात्रश्चतुरात्रो दरिक्त षड्रात्रो समागे सम्प्रतिज्ञो यत् पञ्चधात्रो एवं विद्वान् पञ्चरात्रेण इदेन प्रत्येव यज्ञेन यजगेव पञ्चरात्रो भवति पञ्चभारतमस्तं वत्सरतुष्वेव संवत्सरे च पञ्चाकलापङ्कृन्तो यज्ञो यज्ञमेवावरुन्धे त्रिवदज्ञिष्टमो भवेवावरुन्धे पञ्चरसा भवदीन् निगमेवावरुन्धेरुत्तदशो भवत्यन्ना यस्यावरुद्ध्या सोऽप्रैवतेन जागरे पञ्चविगुंसो भवति प्रजापतेरात्यै महापदमानन्दाद्यस्यावरुद्धे विश्वजत्सर्वपृष्ठोदिो भवनि सर्वस्याभिजित्यै ेवस्य प्रायमिदप्रभवेश्विना बाहुभ्याम्भ्यामानर किमामलभ्रह्मसनामलस्य पूर्वाजिविदसेतु कव्या कया देवा सुलमा बभोवर्णनस्य रामम् सरमानवन्ति अभिधा शिभुवनमुगन्तासि धत्ताजु बिम्भे स्वागरगुम् सत्पथगम् गच्छ स्वाहा पृथिव्याद्यन्तासि गमनो धत्तासु धरुणः क्रश्ये त्वा क्षेवागत्वा रय्ये त्वापोषा गत्वा पृथिव्ये त्वान्तरिक्षायत्वा जिरे त्वारे त्वाथरे भोन्मात्रा प्रभो पित्राश्व सत्यो जिनो सर्वासप्तशिवशाणास्यादित्यानां पत्वान्विषग्रगे स्वाहा स्वाहे राज्ञा स्वाहा प्रजापतगे स्वाहा विश्वेभ्यो देवेभ्य स्वाहा सर्वाः भो देवताभ्य स्वाहे हवि स्वाहे हृ स्वाहे हि स्वाहा ति भुवे त्वा भव्यागत्वा भविष्यते त्वाविश्वेभ्यत्वा भूतेभ्यो देव आचारपादाघेतम् देवेभ्यो त्वम् मेधाय आयनाय स्वाहायनाय स्वाहामाय स्वाहोद्धृदाय स्वाहा शोकाय स्वाहा शोकृदाय स्वाहा पलायिताय स्वाहा पलायिताय स्वाहा वर्गदे स्वाहा परा वर्गदे स्वाहायते स्वाहा प्रयते अग्रे स्वाहा सोमायवाहा स्वाहाय स्वाहा चि स्वाहा बृहस्पत स्वाहेन्द्रा स्वाहा बृहस्पति स्वाहाय स्वाहा वरुणा स्वाहास्मे स्वाहा देव्ये स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रभजे स्वाहा नक्षत्रेद्भ्यस्वाहा प्राच्यैदृशे स्वाहा दक्षिणा वीदृशे स्वाहा प्रदेच्यैदृशे स्वाहो दीवेच्यैदृशे स्वाहोर्ध्वा वीदृशे स्वाहा दिभ्यस्वाहान्तर्विषाद्भ्यस्वाहा स्वाहाभ्यस्वाहा होरा स्वाहास्वाहास्पाः भस्वाहा संवत्सराय स्वाहा सर्वस्मै स्वाहा अग्नये स्वाहा सोभाय स्वाहा चवित्रे स्वाहा बृहस्पत्ये स्वाहा तूष्णे स्वाहा बृहस्पति स्वाहाय स्वाहा वागवे स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा पृथिव्ये स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहाग्ने स्वाहा सोमाय स्वाहा सूर्याय स्वाहा चन्द्रमने स्वाहा स्वाहा रात्रिये स्वाहा ग्रवे स्वाहा दाधवे us may stop. भो देवानाम् कर्म नाम सर्तस्य पथ्या चेभेवदयागारत्रेण छन्दसायिनत्युपन्तेन त्वत्तुना हविडादीक्षयामिद्रेभेवेभद्देवतयाधैष्ठफेन त्वाच्छन्दसायिनज्ञेष्वेन त्वत्तुना हविडादीक्षयाम्यादित्येभद् देवेभद्देवतेन त्वाच्छन्दसायिनद्य वर्षाभित्त्वना हविडादीक्षया विश्वेभद्देवेभ्देवदयानष्ट तेन त्वाच्छन्दसायनद्य शरदा त्वत्तना हमिदादीक्षगाम्यङ्गिराभृद्दैवृद्दैवदजापा तेन त्वा छन्दसाय लद्य हेमन्तशिशिराभ्याः तत्तना हमिडादीक्षगाम्या हङ्गेक्षामलगपदस्य पत्नी गायत्रेण छन्दसा ब्रह्मणा यत्तगुम् सत्ये सागुम् सत्यमृतेधा महे मोषसुत्रामाणमिहष निष्वाहे हमिष निस्वाहे हरम् दिस्वाहे हरमदिस्वाहा ेङ्काराय स्वाहें कृताय स्वाहा क्रन्दते स्वाहा प्रक्रन्दते स्वाहा प्रोथते स्वाहा प्रोथते स्वाहा गन्धाय स्वाहा प्राणाय स्वाहा प्राणाय स्वाहाय स्वाहाय स्वाहा सन्दीयमानाय स्वाहा सुन्दिताय स्वाहा विजित्यमानाय स्वाहा विजित्ताय स्वाहा पलायिष्यमाणाय स्वाहा पलायिताय स्वाहो भरदा यस्वाहा निवेक्षते स्वाहा निविशवानाय स्वाहा निविष्टा य स्वाहा निपत्स्यते स्वाहा निभीदते स्वाहा निधन्नाय स्वाहा विष्यते स्वाहा धीराय स्वाहा जता यस्वाहा निपत्स्यते स्वाहा निपद्यमानाय स्वाहा निपन्नाय स्वाहा जयिष्यते स्वाहा शिगालाय स्वाहा जयिताय स्वाहा सम्मेलिष्यते स्वा स्वाहा स्वप्सदे स्वाहा स्वमदे स्वाहा सुप्ताय स्वाहा प्रभोक्षदे स्वाहा प्रमोध्यमानाय स्वाहा प्रबुद्धाय स्वाहा जागरिष्यते स्वाहा जागदे स्वाहा जागरिताय स्वाहा शुश्रूषमाणाय स्वाहा जन्मते स्वाहा श्रुताय स्वाहा वीक्षिष्यते स्वाहा वीक्षमाणाय स्वाहा वीक्षिताय स्वाहा स्तरे स्वाहा सञ्जमानाय स्वाहो विद्यमानाय स्वाहा विभक्षते स्वाहा विवर्तमानाय स्वाहा विवृताय स्वाहो स्वाहो तिष्ठते स्वाहोच्छिदाय स्वाहा विधविष्यते स्वाहा स्वाहा विधोदाय स्वाहो न्दो यमानाय स्वाहा नन्दो स्वाहा निकटे स्वाहा निकषमानाय स्वाहा निकषिताय स्वाहा यदक्षि तस्मै स्वाहायत्किपतितस्मै स्वाहायन्मेहटितस्मै स्वाहात्कलोदस्मै स्वाहा रे स्वाहा प्रजाभ्य स्वाहा प्रजलनाय स्वाहा स्वाहा अग्नरे यस्माहा वाजवेस्माहूर्यायस्माहत्तवस्त्रितस्य तवसि सत्यमसि धर्त्यस्य सत्यवस्त्रस्य सत्या, मन्सः देवानाच्छायामृतश्च न मृतः सत्यम् प्रजाहृदस्यन्वाजलीमनुभक्पभ्रन्ते जः सौर्येण विशोकोदय कर्यम् पशुन्न गोपायः परिज्ञमा